शलचरितं किहिरालापं पुरोण समीरति ललितवलितग्रीव शास्त्रं दिशो मुहुरे ते कलयति करे वक्त्राम्भोजं तवागमसम्मुखम् ग्पयति वनो गाढश्वासैः शिवे रमणस्तव अस्तं चण्डकरस्य भीक्ष्य विमुखः देवः प्रतीक्षान्तरे कान्त्या राभृतं जगदि दीपीणादिसन्ध्यारुणे घाटमिति प्रमुग्धकरणो भूयः कलामेन्दवी सम्भाव्य प्रणयार्पिता तव तनुज्योत्स्नामपि श्लाघ दे सञ्चारम् अस्य मुब्धतरुणी आराहव प्रक्रियासारख्यापकसूत्रधारैव हि व्यग्राविसारक्रमः सत्यस्मिन् दृशि बद्धपुष्पादनुषगा यूनो अपारं रहसंलापैः सह सम्भ्रमैः सह रतारम्भैः सह aalinganee idamigatam hema bjinyaah tatona vachampagaha kuravagadarum vaame kuravagadarum vaame glue toi तदनु श्रितः तदनुनिकटे द्रष्टुं शक्यामुपेत्य तदनुनिकटे द्रष्टुम् शक्यामुपेत्य सम्भ्रम सम्भ्रमात् सुजति भवतीं गाडाश्लेषैः नयेति मणिवेधिगां भवतीं गाडाश्लेषैः नयेति bani be diga